स्य प्रासवितः प्रसवेशना बाहुभ्याम् हस्तारसि परिलिखित गुं रक्षः परिलिखिताराजय इदमहुम् रक्षसौ ग्रीवा अभिनृन्दामिष्टि भजन्मसङ्घ्रीवा अभिनृन्दामिक्षाय त्वाजये त्वा सुंसता लोकः पितृजास्मद्वेषां सदनमस्तुन्द्रिं भजता नस्त्वा मारुतो विनोतु मित्रा वर्णयोर्धु सन्म क्षत्रवलिवं सप्रजापनिवं राजस्पोषिं वल्यो हा ब्रह्मदृगं ह क्षत्रं दृगं ह प्रजादृगं हराजस्पोषं विश्वजनस्य छायामलित्वा गर्वमा भवन्तु विश्वतो विद्धाजमनुवृद्धयो दुष्टाभवन्तुष्टन्द्रस्यो I actuar रक्षोहणो वलगहनो वैष्णवाङ् खनामेदमहं तं वलगमुद्ववामिजन्नः समानोजमसमानो न जखानेदमे नमधरं करोमि यो नः समानोजो समानो राधेयति गाजत्रेण छन्दसावबाढोत्र भद्रं तन्नौ सह विराडसि सवप्नः सम्राडसि भ्रातृजः स्वराडस्कभिमादिहा विश्वाराडसि विश्वासान्नाष्ट न्दा रक्षो हनो प्रोक्षामि वैष्णवान् रक्षो हन बलगहनो वनयामि वैष्णवान् जपसि जवयास्मद्वैष् जव राति रक्षो हन बलगहनो वस्त्रृणामि वैष्णवान् रक्षो हनौ वलगहनो जिहोमि वैष्णवान् रक्षो हणौ बलगहन उपदधामि वैष्णवे रक्षो हणौ बलगहनौ बलजूहामि वैष्णवे रक्षो हणौ बलगहनौ परिसृणामि वैष्णवे हनौ बलगहनौ वैष्णवे मृहन्नसिरद्रावान्द्राय वाचं वदा िरम्भारिस्वान्ध्योलिः परिषद्यो स्वानसंभ्रष्टोऽसि हविजसोदधामाज्योतिर्ब्रह्मज्योतिरसिकपादहिलिबुद्ध पुंसा मरमाकृ द्वेषभ्य बुलु यम् दासिबलो थग् स्वाहालुषाणो अप्तुराज्यस्य वेतु स्वाहायन्नो अग्निर्वरिव कृणा द्वयम् ऋतः पुरदे प्रभिन्दन् जयगुं सक्रोहोम् जयतु जर्घृषाणोजम् वाचम् जयतु वाचसाधौ गुरुविष्णो विक्रमस्वरुक्षया जनः कृति घृतम् घृतयो स्वमोदिगादिकादि देवानामेत निष्कृतमृतस्य यो निवास नोश्च नित्यावो देव सविदः सोमस्तगुं रक्षद्भो इदमहं मनुष्या मनुष्यान् सह प्रजदासह नमो देवेभ्यः स्वधा पितृभ्यदिदमहं निर्वरुणस्य पाशात् वैश्वानरञ्ज्योतिरग्नेः मृतपते त्वम् व्रता मृतपति रसि राममतनोऽस्त्वय्य भोरिजगुंसा जा मयि जातवनोर्मय्यभोदेशा जा सा त्वदि यथा यथन्नौ व्रतपतेनो हा प्रदानी त्यन्यानगान्नान्यानुपागामर्वाक्त्वा परे रविदं परोपरे स्तम्भाजुषैष्टवन्देव यज्ञादेवस्त्वा सविता मध्वा नक्त्वषधेत्रायस्वैस्वधितेऽवमग्रेण माले क्षीरं दरिक्षं मध्यमाहिगंसेः पृथिविजासंभवनस्पदेशो विरोहसहस्रपलिशापि स्वधितिस्तेति जानः प्रणिनाय महते सौभगायाच्छिन्नाराय सुवीरः ुजये त्वान्तरिक्षाय त्वा दिवे त्वा सुंसतां लोक्यत्रिपदनसिवजास्मद्वेषाते स्वावेषोस्य ग्रे गाने तृणां वनस्पतिरथित्वा स्वास्य वित्पाद्य वस्त्वा सिता मध्वानकृष्पौषधेभ्युद्धिमग्रस्तनान्तरिक्षं ऋणपृथिवे मुफरेण दृगं हते का मध्ये गावो यत्र भूरि शृङ्गारया सः अत्राहतदरुगायस्य विष्णाः परमम् पदमवभाति भूरेः विष्णाः कर्माणि पश्यत यतो वदानि पस्पशे किन्द्रस्य युज्यः सखाः विष्माः परमम् पदकम् सदा ब्रम्भवनिम् वा क्षत्रवनिकम् सुप्रजावनिकम् राजस्पोषवणिम्बरजोहामिब्रम्भदृगम् ह क्षत्रम् दृगम् हराजाम् दृगम्हराजस्पोषम् दृगम्हवेरसिवनिद्वा देवे लोह्यरेमगम् राजस्पोष विजमानम् मनुष्या अन्तरिक्षस्य त्वासानामपगोहामि ्युपो देवान्देर्विषह्वा कुर्वन्ने विशुजौ हस्मदेहविजादे त्वष्टर्मसुरण्डरेवमग्नेर्जनिक्रमसि भूषणौ स्थगुर्वशस्याजुलसि गुरुरवाघृणं दधाङ्गायक्रञ्छन्दो नु प्रचार्यक्रेष्टुभञ्जागञ्छन्दो नु प्रजागस्व भवतं न रेपसौ माज्ञकं कुं हिकम् सृष्ठम् मालिज्ञपदिम् जातवेदसौ शिवौ भवतमद्यनः अग्नावग्निश्चरति प्रविष्टऋषीणाम् पुत्रो च देशः ब्रह्मणा तेजुहोमि वा देवागा आदरितस्यत्वा देवः विश्वासेनारभेधर्षामानुषा नस्पौषधेभ्यः प्रोक्षात्स देवं देवे स्वुंसन्तेः प्राणो वाजुना गच्छतां संयजप्तैरङ्गानि संयज्ञपतिराशिषाक्तौ वसुन्दरादेशाकुं रेव यापि सतोरो बदे अन्तरिक्ष जोर्देवेन हविषस्मनाय दशमस्य तनुवाभवर्षेजो यज्ञे यज्ञपतिं धाः पृथिव्याः सम्पृजः पाहि नमस्तर्वा प्रेहितस्य कुल्या मनसः प्रजजा सहराजस्तोषेणापो देवे शुद्धायुवशुद्धा यूयं देवागुम्भूटभगुं शुद्धा भयं परिविष्टाः परिवेष्टारो बो a uh -huh. आप्यायताम् प्राणस्तः आप्याजताञ्चक्षुस्थाप्यागता विश्रोत्रम् त आप्याजताञ्जे प्राणान्शुजगाभजा चक्षुरुजाश्रोत्र यत्ते रोदा स्थितम् तप्तः आप्यागताम् तत्तज तेन सुन्धतान्नाभिस्ताप्त्याजताम् वाजस्ताप्त्याजतां शुद्धाश्चरित्राश्च मद्भः शमोरथेभ्यः ृर्येशमहाभ्रामो रथे राजस्वै नो रक्षसां भागो से नक्षोन्दमो नयामि समन्दमो न यामीशे द्वाचते न ज्ञा वा पृथिवेन्वाचा मच्छिन्मो राजस्तुगीरभुर्वन्तरे क्षमन्विः मायोवेश स्तो गानाग्रस्वाहो नभसम् मारुतम् सं दे मनसा मनः सं प्राणेन प्राणो दुष्टं देवेभ्यो हव्यङ्घवत् स्वाहैन्द्रः प्राणो अङ्गे अङ्गे निदेन्द्रोपाणो अङ्गे अङ्गे विव भुवद्देव त्वष्टद्भूरिधे सगुं समे धृष्टरूपायत्सलक्ष्माणो भवथ देवत्रायङ्गमवसे सखायोनुत्वा मातापितरो मदं तुश्रीरस्यग्निस्त्वा श्रीणात्वा तस्य त्वाद्ध्रज्जै कोष्णारग्रह्या अपामोषधे भागुम् रोहिष्ये हृदम् हृदपावानः पिबत वसाम्बसा पावानः पिबताम्बरिक्षस्य हविरसि स्वाहा त्वाम्बरिक्षा रष प्रदिश आयुषो युष उद्दिश स्वाहा दिग्भ्यो समुद्रं गच्छस्वाहान्तरिक्षं गच्छस्वाः देवगुंसवितारं गच्छस्वाहात् गच्छस्वाहात्रावरुणौ गच्छस्वाहा सोमं गच्छस्वाहा यज्ञं गच्छ स्वाहा स्वाहा वा पृथिवे गच्छस्वाहा नभो दिव्यं गच्छस्वाहाम्बे स्वाधरं गच्छ स्वाहाभ्यस्मौ हृभ्यो मनोमे हार्दयच्छ तनोन्वचं पुत्रन्नप्ता नमसेमभिशोषयो भजन् विष्णोधा म्नो धाम्नो राजन्नितो वरुणनोमुम् जगदापो अभ्यजा वरुणे दिशपामहे ततो वरुणनोमु हविष्मतेमा आपो हविष्मान् देवो अध्वरो हविष्मागुम् आविभासते हविष्मागुम् अस्तु सूर्यः अग्नेर्वोपन्नगृहस्य सदश सा दजामि सुम्नाय सुम् गणे सुम्ने माधत्तेन्द्राज्ञयोजोर्भागधे जेष्ठमित्रा वरुणयोर्भागधे देहेष्ठ विश्वेषाम् देवानाम् भागधे देहेस्थलग्ने जागता कृजे त्वा मनसे त्वा दिवेत्त्वासोर्जायत्वोऽर्धमिममधरम् कृजे देवेषु यच्छसोमराजम् नेव्यवरोहमाभि सम्मिच्छामाद्वाहिकम् सृषम् प्रजास्त्वमुपावरोह प्रजास्त्वामुपावरोहन्तु शृणोत् अग्निः मे शृण्वन्त्वाो भिषणाहाश्च देवेः शृणोदग्रावाणो विदुषोऽनु यज्ञकम् शृणोतु देवे राभो अपान्नपाद्य भोर्मिलः भिष्टजिम् ऋजावान् भजन्तमस्तम् देवेभ्यो देवत्रा धत्तशुक्रजिम् शुक्रवेभ्यो शुक्रा देषाम् भागस्थसाः कारिषिरस्य पापाम् वृद्धकम् समुद्रस्य भोक्षित्या मुम्मये यमग्ने मृत्सुमजवाभो वाचेषु यम् त्वमग्ने रुद्रो असुरो महो दिवस्त्वगम् सर्धो मारुतम् वृक्षजे शिषे त्वम् वातेररुणैर्जासिषम् गजस्त्वम् पुंशाविधतः आवो राजानवद्भरस्य रुद्रगम् हो तारकम् सत्यजधम् रोदस्योः अग्निम् पुरातनयज्ञोरचित्ताद्धिरण्यरूपमवसे अग्निर्हो दानिषसा जानिजे जानुपस्थे मातुः सुरभावलोके युवाकविः पुरुणिष्ठलुतावा सप्ताकृष्टेनामुदमध्यसिद्धः सा धेमगर्देववी चिह्नो अद्य यज्ञस्य जिह्वामपिदामधुह्या स आयुरागाः सुरभिर्वसानो भद्रामगर्देवहो चिन्नो अद्य अक्रन्ददज्ञनयन्निपद्योः क्षामा रेरिहद्वीरुधः समञ्जन् सद्यो जज्ञानोऽभिः विद्धो अख्यदालोदश्रीभानुनाभात्यन्तः त्रे वसो निपूर्वणे कहो दब्दोषावस्थोरेरिरे जग्दिजासहा क्षामे बश्वा भुवनानि यस्मिन् सगुंसौभगानि रथधिरे पावके तोभ्यन्त अङ्गयस्तमविश्वाः सुक्षितजः कृषक आग्ने कामाय देमिरे अस्यामदम् काममग्ने दपोद्यस्याम रजगो रजिवः सस्मिता नस्तन्यतोरोचनस्था अजरेभिर्ना न दद्भिर्यमिष्ठः यः पा वकः पुरुतमः पुरोणि वृसोऽन्यग्निरनुजातिपर्वन् आयुष्टे विश्वतो दधदयमग्निर्वरे अहस्ते प्राण आयति परा लक्ष्मकुम् सुवामिते आदुद्या अग्ने हमिषोजुषाणो धिरम्बे त्वाम सुचारुगव्यम् विदेव पुत्रमभिरक्षतादिमम् तस्मै चेत् विहर्यते जातवेदो वितर्षणे आग्ने जनामि सुस्तुतिम् जिवस्परि प्रथमम् जज्ञे अग्निरस्मद्वितेजम् शुचि प्लावकमोग्ने बृहद्विरोचसे त्वाङ्घृतेभिराहुतः भिशानो रुक्मपुर्व्याव्यौषमायुशिजेरुचाणः अग्निरमृतो अभवद्मजो भर्गदेन जौरजनयत्सुरेताः आयतिश नृपतिम् देजानुचिरेदो दे निषिक्तम् जौरभिकेः अग्निः शब्धमनवद्युवानग्निस्वाधिजम् जनयत्सूदयच्च स जयजेजसा मनसा त्वोदकुतशिक्षस्वभत्यस्य शिक्षोः अग्नेराजोऽनृतमस्य प्रभूतौ तमग्ने मृदना सहगुम् रजगुम् सहस्व आधरा त्वगुम् हि सत्यो अद्भुतो जाता वाजस्य गोमतः ऊक्षान्नाय वशान्नाय सोमपृष्ठाय मेधसे स्तोमेर्विधमाग्नजे पद्मा हि सोमो अस्य ध्वसद्वाचक्रे सप्पन्नवोर्जस नवोर्जन्धाराजेव जैलमृगेक्षेष्यन्तः अग्न आयोगम् शिपव स आसुवोर्धमिषञ्चनः आयेवाधस्व दुच्छुनाः आग्नेपव स्वस्व प अस्मेवर्जः सुवीर्यम् दधत्पोषकम् रयिम् मयि अग्नेपावकरोचिषामिन्द्रयादेव जिह्जाः आदेवानपक्षिजक्षि च स नः पावगति दिवोऽग्ने देवागुम् इहावः उभयज्ञकम् हविश्चनः अग्निः सु च मृततमस्व जगुभेप्रश्रुचः कविः सुजे रोचद आहुदः उदग्ने सुजस्तव शुक्राभ्राजम् दरीरते तव ज्योतेगश्यचयः गो